श्री श्रीहर नम अत पंचम श्रीशुक उपवाचार एवं भगवता दिष्टो दुर्वासाश्चक्रतापितः अम्बरीशम् उपावृत्य तत्पाधौ दुःखितो गृहीत् तस्य सोद्यमनं वीक्ष पातस्पर्श विलज्जितः अस्तावि अस्त्रं कृपया पीडितो वृषम् अम्बरीश त्वमग्निर्भगवान् सूर्यस्त्वं सोमो ज्योतिषाम्पतिः त्वमापस्त्वं क्षितिर्व्योम वायुर्मात्रेन्द्रियाणि च सुदर्शननमस्तुभ्यं सहस्राराश्च्युतप्रिया सर्वास्त्रघातिन्विप्राय स्वस्ति भूयागिढस्पते त्वं धर्मस्त्वं ऋतं सत्यं तव यज्ञो त्वं लोकपालः त्वं तेजपौरुषं परं नमः सुनाभा त्रैलोक्यगोपाय विशुद्धवर्चसे मनोजवायाद्भुतकर्मणे गृणे त्वत्तेजसा धर्ममयेन संहृतं तमः प्रकाशश्च धृतो महात्मनां दूरस्य त्वद्रूपमेतत्सदसत्परावरं यथा विसृष्टस्त्वमनञ्जनेन लं प्रविष्टो जितैत्यधानवं बाहूदरोर्वङ्ग्रिशिरोदराणि वृग्नन् अजश्रं प्रदेन विराजसे सत्वं जगत्राणकलप्रहाणये निरूपितः सर्वसखो गदा भृथा मिष्टं वा स्वधर्मो वा स्वनुष्ठितः कुलं नो विप्रदैवं चेद्विजो भवतु विज्वरः यतिनो भगवान् प्रीतये एकः सर्वगुणाश्रयः सर्वभूतात्मभावेन विजो भवतु विज्वरः श्रीशुक उवाच इति संस्तुवतो राज्ञो विष्णुचक्रं सुदर्शनम् असं यत् सर्वतो विप्रं प्रदहत्राजयज्ञया स मुक्तो राग्निधापेन मांस्ततः प्रससंशतमुर्विशं युञ्जानः परमाशिशः दुर्वासा उवाच अहो अनन्तदासानां महध्वं दृष्टमध्य मे कृतागसोऽपि समीहसे दुष्करकोऽनुसाधूनां दुस्त्यजो वामहात्मनां यः संगृहीतो भगवान् सात्मनां वृषभो हरिः यन्नामश्रुतिमात्रेण पुमान् भवति निर्मलः तस्य तीर्थपधः किं वाधाशानाम् अवशिष्यते राजननुगृहीतोऽहं त्वया अतिकरुणात्मना मद पृष्ट कृत्वा प्राणायन्मेऽभिरक्षिताः राजा तम् अकृताहारप्रत्यागमनकाङ्क्षया शरणावुपसङ्गृह्य प्रसाद्य सोषित्वा द्रुतमानीतम् आदित्यं सार्वकामिकं तृप्तात्मान्रपतिं प्राह बुद्ध्यतामिति सादरं प्रीतोऽस्मि अनुग्रीतोऽस्मि तव भागवतस्य वै दर्शनस्पर्शनालापै आदित्येनात्ममेधसा कर्मावधातमेतत्ते गायन्ती स्वस् स्त्रियो मुहुः कीर्तिं परमपुण्यां च कीर्तयिष्यति भूरियं श्रीशुक उवाचा एवं सङ्कीर्त्य दुर्वाशा परितोषितः ययौ विहाय सामन्त्र्य महैतुकं संवत्सरोद्यगात् मुनिस्तद्दर्शनाकाङ्क्षो राजाभषो बभूवः गते च दुर्वासशि सोम्भरीशो द्विजोपयोगातिपवित्रमाहरत् ऋषेर्विमोक्षं व्यसनं च भूत्वा मेने स्ववीर्यं च परानुभावम् एवं विधाने कगुणः स वासुदेवे क्रियाकलाभै समुवाकभक्तिं यया विरिञ्च्या निरयाञ्चकार अदाम्बरीषस्तनयेषु राज्यं समानशीलेषु विसृज्य धीरः वनं विवेशात्मनिवासुदेवे मनोधतत्वस्तगुणप्रवाहः इत्येतत् पुण्यमाख्यानमम्बरीशस्य भूपतेः सङ्कीर्तयन्ननोऽध्यायन् भक्तो भगवतो भवेत् इति श्रीमद्भागवते महापुराणे नवमस्तन्ते अम्बरीषचरितं नाम पञ्चमोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्दा गोविन्द